गरुडपुराणम् आचारकाण्डम् अध्यायम् फोर्टि शंकर उवाच महेश्वरीं चमे मे पूजां वदशङ्कगदाधर याम् ज्ञात्वा मानवासिद्धिम् गच्छन्ति परमेश्वर हरिरुवाच शृणुमाहेश्वरीम् पूजाम् कथ्यमानाम् वृषध्वज आदौ स्नात्वा तथा चम्य ह्यासने चोपविश्य च न्यासं कृत्वा मण्डले वैपूजये च पूजयच्चे महेश्वरम् मन्त्रैरेदैर्महेशान परिवारयुदं हरम् ॐ हां शिवासनदेवता आगच्छते दि देवता अनेनावाहये रुद्रदेवतासनस्ययाः ॐ हां गङ्गणपदये नमः ॐ हां गणपदये नमः ॐ हां सरस्वत्यै नमः ॐ हां नन्दिने नमः ॐ हां महाकालाय नमः ॐ हां गङ्गायै नमः ॐ हां लक्ष्म्यै नमः ॐ हां महाकलायै नमः ॐ हां अस्त्राय नम इति ये तद्वारे प्रपूज्या वै स्नानगन्धादिभिर्हर ॐ हां ब्रह्मणे वास्त्वाधिपतये नमः ॐ हां गुरुभ्यो नमः ॐ हां आधारचक्र्यै नमः ं हाम् अनन्दाय नमः ॐ हां धर्माय नमः ॐ हां ज्ञानाय नमः ॐ हां वैराग्याय नमः ॐ हां ऐश्वर्याय नमः ॐ ॐ अधर्माय नमः ॐ हाम् अज्ञानाय नमः ॐ हाम् अवैर्याग्याय नमः ॐ हां अनैश्वर्याय नमः ॐ हां ऊर्ध्वच्छन्दाय नमः ॐ हां अधशन्दाय नमः ॐ हां पद्माय नमः ॐ कां कर्णिकाय नमः ॐ हां वामायै नमः ॐ कां ज्येष्ठाय नमः ॐ हां रौद्र्यै नमः ॐ काल्यै नमः ं हां कलविकरण्यै नमः ॐ बलप्रमथिन्यै नमः ॐ हां सर्वभूतधमन्यै नमः ॐ हां मनोन्मन्यै नमः ॐ हां मण्डलत्रुदयाय नमः ॐ हां हौं हं शिवमूर्तये नमः ॐ हां विद्याधिपतये नमः ं हां क्रीं हौं शिवाय नमः ॐ हां हृदयाय नमः ॐ शिरसे नमः ॐ हुं चिखायै नमः ॐ कवचाय नमः ॐ हौं नेत्रत्रयाय नमः ॐ हः अस्त्राय नमः ॐ सद्योजादाय नमः ॐ हां सिद्ध्यै नमः ॐ हां नमः ॐ आं विद्युदायै नमः ॐ हां लक्ष्म्यै नमः ॐ हां बोधायै नमः ॐ हां काल्यै नमः ॐ हां स्वधाय नमः ॐ हां प्रभायै नमः सत्यस्याष्टौ कलाज्ञेयः पूज्या पूर्वादिषु स्थिताः ॐ हां वामदेवाय नमः ॐ हां रजसे नमः ॐ हां रक्षायै नमः ॐ हां नृत्यै नमः ॐ कन्याय नमः ॐ हां कामायै नमः ॐ हां जनन्यै नमः य नमः ॐ हां वृद्ध्यै नमः ॐ हां कार्याय नमः ॐ रात्र्यै नमः ॐ हां ब्राह्मण्यै नमः ॐ हां मोहिन्यै नमः ॐ हां क्षराय नमः वामदेवकलौ ज्ञेयास्त्रयोदश वृषध्वज ॐ हां तत्पुरुषाय नमः ॐ हां निवृत्यै नमः ॐ हां प्रतिष्ठायै नमः ॐ हां विद्यायै नमः ॐ हां शान्त्यै नमः ज्ञेयास्तत्पुरुषस्यैव सदस्रो वृषभध्वज ॐ हां तृष्णायै नमः कलाष्टकं ह्यखोरस्य विज्ञेयम् भैरवम् हर ॐ हाम् ईशानाय नमः ॐ हां समित्यै नमः ॐ हाम् अङ्गदायै नमः ॐ हां कृष्णाय नमः ॐ हां मरीच्यै नमः ॐ हां ज्वालायै नमः ईशानस्य फला पञ्च जानीहि वृषभद्वजा ॐ हां शिवपरिवारेभ्यो नमः ॐ हां इन्द्राय सुराभिपतये नमः ॐ हाम् अग्नये तेज्योधिपतये नमः ॐ हां यमाय प्रेताधिपतये नमः ं नरुदाय रक्षोधिपदये नमः ॐ हां वरुणाय जलाधिपदये नमः ॐ हां वायवे प्राणाधिपदये नमः ॐ हां सोमाय नेत्राधिपदये नमः ॐ हां ईशानाय सर्वविद्याधिपदये नमः ॐ हाम् अनन्दाय नागाधिपतये नमः ं ब्रह्मणे सर्वलोकाधिपतये नमः ॐ हं चंडेश्वराय नमः आवाहनं स्थापनं सन्निधानं च शङ्कर सन्निरोधं तदा कुर्या सकलीकरणं तथा तत्त्वन्यासं च मुद्राया दर्शनं ह्यानमे पाद्यमाचमनं ्यं पुष्पाण्याभ्यङ्गदानकं तदा उद्वर्तनं स्नानं सुगन्धं चानुलेपनं वस्त्रालङ्कारभोगांश्च चा। ह्यङ्गन्यासं च धूपकम् दीपं नैवेद्यदानं च हस्तोद्वर्तनमेव च पाद्यार्ख्याचमनं गन्धं ताम्बूलं गीतवादनम् नृत्यं छत्रादिकरणं मुद्राणां दर्शनं तथा रूपं ध्यानं जपञ्चाथ एकवद्भाव एव च मूलमन्त्रेण वै पूजा समर्पणं माहेशी कथितापूजा रुद्रपापविनाशिनी इति श्री गारूडे महापुराणे आचारकाण्डे महेश्वरपूजाविधिर्नाम चत्वारिंशोऽध्यायः ओम्